मुद्गलपुराणं खण्डं सिक्स् विकटचरितम् अध्यायम् एय्टीन् गर्भागारस्य प्रमाणवर्णनं श्रीगणेशाय नमः देवेशावूचुः क्षेत्रस्थानां च यात्रायामाहात्म्यं वदयो गिपा के के मुख्या महाक्षेत्रे पूज्यालोकैर्निरन्तरम् भृश्युण्ड्युवाच उत्तराभिमुखो देवो गणेशः क्षेत्रमध्यगः संस्थितस्तस्य वामाङ्गे सिद्धिसेवार्थमास्थिदा चमरैर्व्यजनायैर्युक्दा नानासिद्धिसमन्विता सेवदे गणराजं सा स दी भक्तिसमन्विता दक्षिणाङ्गे तद्धा बुद्धिर्विद्याभिः संयुदा स्वयं पलाभिश्च सरस्वत्या समीपे सेवने स्थिता सुगन्धि वस्तुभिर्युक्ता सति परमार्थवाचका गणेशम्भावसंयुक्ता भजते नित्यमादरादकुलदो लक्षलाभौतु भक्तिनम्रात्मकन्धरौ सेवेदे तं गणाध्यक्षम् पृष्ठभागे महादेव्यो भ्रामर्या धारकामदाः नानाशक्तियुधा देवं सेवन्दे भक्तिसंयुधाः समास्तितश्चासनाधो गणेशस्येक्षुसागरः कमलं साकरोद्धं तु सहस्रधलराजितं तीव्रादिशक्तिसंयुक्ते तत्र विघ्नेश्वरः सदा तिष्ठन्ति मे इदं देवास्य वन्दे रससंयुताः एवं गणेश्वरः सर्वै पूजनीयो विशेषतः तैर्युक्तः सर्वदश्चैव भवत्यत्र न संशयः मयूराघु तत्पुरश्च संस्थितौ करसम्पुटैः तत्पुरः नीराजयन्ति विघ्नवम् पृष्ठभागे तथा तस्य प्रमोदाद्याश्च सायुधाः संस्थिता भक्तिसंयुक्ता पूजनीया नरेण ते अथ तु धर्ममण्डप उच्यते तत्र विष्णुः स्वयं साक्षात् तिष्ठति सेवनोत्सुकः सर्वान् कथयते धर्मान् गणेशान् तत्र संस्थितः गणपत्यप्रियत्वात् स पूजनीयो विशेषतः तथा दक्षिणघः शम्भुरार्थमण्डपमाश्रितः स गणेशान् कथयदे शब्दार्थान् विविधान् परान् गुह्यानार्थान् सदा देव प्रकाशयदि सर्वदा गणेशज्ञानकुशला भवन्ते तेन मण्डपकामसंज्ञस्तु दिशि देवासमीपगाः पश्चिमायां स्थिता तत्र महाशक्तिर्महेश्वरः गणेशकामानायां सा कुरुदे सर्वमानवान् सौख्यमाद्यं कथयदे गणेशं परमाद्भुतम् उत्तरे मण्डपो मुक्तेस्तत्र सूर्यप्रतिष्ठते गणेशभक्ति यूक्तो बोधयद विविधा ना गणेशी मुक्ति माद्यां पूर्णमोक्षिनी प्रकाशय त्रस्थ जन संजिद रवि गणेशसने मुद्दा महेश महाभक्ता प्रतिष्ठे भक्त्रिं सम्बोधयन्ति दक्षिणाङ्गे पुरस्तस्य मुद्गलो भक्तनायकैः अव्याहदगदिसोऽपि गुह्यधारक उच्यते वामाङ्गे गणराजस्य पुरो योगिसमन्वितः सुको गणेशयोगम् बोधयदे सकलान परं पूजनीयौ प्रयत्नेन गणेशपुरदस्थितौ मुद्गलश्च शुको देवाः प्रियौ विघ्नेश्वरस्य तौ मण्डपादेवमुख्यानां कथिताश्च ततः परं विनायकास्थिदा अष्टौ क्रतुण्डादयः पराः ततोमादरः प्रोक्तास्ततोौ भैरवामदाः दिशाम्भागेषु देवे स्याः पूजनीयाः प्रयत्नदः ततो गणेशवामाङ्गे चतुर्थी सङ्गडा दक्षिणाङ्गे तथा शुक्ला तिष्ठति सेवनोत्सुका पृष्ठभागे शमि तद्वत्पुरो मन्तार एव च दूर्वा पुरस्तिदायेदे सेवन्दे गणनायकं नग्नभैरवदेवश्च पूर्वभागे समाश्रितः भक्तियुक्तस्वभावेन सेवदे गणनायकं तथा दक्षिणगोदेवा देवा प्रतापवान् सेवदे विघ्नराजं स समागत्य निरन्तरं पश्चिमे कृतिवासास्तु भीमे शोत्तरे समागत्य गणेशानं सेवेते भक्तिसंयूतौ ततो दिक्पालरूपाश्च सेवन्ते द्विरधाननं समागत्य सशस्त्रास्ते नित्यम् भक्तिसमन्विताः यदे मुख्यात्मकाः प्रोक्ता गर्भागारनिवासिनः केचिद्वास्सकरास्तत्र केचित् सेवार्थमागताः अतः प्रवक्ष्यामि सदा गर्भगृहस्थितान् विनायकान् महाभागान् सर्वसिद्धि प्रदायकान् विदर्भाद्वक्रतुण्डश्च बल्लाळो यल्लिगस्तधा हेरम्बश्च महेशाना विद्यापुरसमाश्रितः विघ्नेशक् पारिनेरस्थो बालचन्द्रस्तथैव च ज्ञानेशो दत्तात्रेयेण संयुतः चिन्तामणिस्तावरस्तो मरासिद्धिविनायकः सिद्धिक्षेत्रस्त एवं तु महागणपदिस्तथा मणिपूस्तो विघ्नहरो विजयस्थो विनायकः कश्यपालयसंस्थश्च येलास्तो लक्षविघ्नपः बङ्गालस्तो गणेशानो विघ्नराजो महेश्वराः जीर्णकूस्थस्तथा शापूरकोह्यमलक्षेत्रगः प्रभालस्थो गणेशश्च राजवेश्मस्थ एव च इत्यादि बहवस्तत्र भवन्ति गणपास्थिताः मयूरेशं समाश्रित्य गर्भागारनिवासिनः भवन्ति विघ्नराजाश्च सर्वे तस्य कलात्मकाः गर्भागारं गणेशस्य मूर्तिरूपं महत्परं ज्ञातव्यं सर्वभावेन सेवनीयं विशेषतः शतकोटिगणेशानां संस्थिता गर्भागारं दिवत्तमागारिशिम गणपेन चरश्च मुनिदेस्ताय गर्भागारे चले सर्वे बुद्धैस्तेभ्योधि का गर्भागारे गणेशन स्वनाम्नाङ्गितमादराद स्थापयेतेन देवेशा जगद्ब्रह्मचस्थापिते केनापि पुण्यं वक्तुं न शक्यते दे देवसतमः मयूरे गणनाथस्य स्थापने सम्भवं परं जीर्णोद्धारं तुह्य कुर्यात् सम्पूर्णफलं लभेत् मूर्ति खंडम नरो दृष्टि सांगं क्या फलेशाऊचु आश्चर्य भाष्यक्यं तदीय गुरसम ये गणेश कथम ठी तद यथा यथम तेन संशयहीनाश्च भविष्यामो वयम् प्रभो भृशुण्ड्युवाच परमाणुस्वरूपेण केचित्तत्र गणेश्वराः केचित्तुत्र सरेणुभिः समाने देहधारकाः अङ्गुष्टपर्वमात्रेण देहेन शम्भुमुख्यकाः देवाश्च मुनयः सर्वे तिष्ठन्त्यत्र न संशयः चतुर्हस्तप्रमाणेन मयूरेश्यश्च तिष्ठति सम्युदो देवासिद्धिबुद्धि द्विहस्तगे हस्तमात्रेण सर्वे ते पूर्वस्मिन्कथिता मया तिष्ठन्ति गणराजस्य सदा सेवार्थलासाः चतुर्धनुप्रमाणेन धर्ममण्डप एव यः तस्माद्विगुणिधप्रोक्तसमन्दादर्थमण्डपः तस्माद्विगुणिधप्रोक्तकाममण्डप एव च पादहीनस्तथा प्रोक्तस्तस्मान् मुक्तेश्च मण्डपः गणेशाद्वै दशधनुर्द्वारे धर्मस्य मण्डपः पूर्ववद्वारका सर्वे मण्डपास्वस्वमानदः मण्डपात् पूर्वदिग्देशे वक्रतुण्डस्थितो मदः बुधैर्दशधनुर्दूरे ज्ञातव्यं मानदो मराः दश पञ्चधनुर्दूरे संस्थस्तत्रैकदन्तकः एवं पञ्चप्रवृद्ध्यादु धनुषां दिक्षु विघ्नपाः अष्टभ्यो गणनादेभ्यो दूरे पञ्चधनुष्कदः मातृकाः संस्थिताश्चैव वृद्ध्या क्षेत्रं भवेद तेभ्य पञ्चधनुष्केतु चतुर्थी संस्थिता मदा वृद्धिन्यूनत्वमानेन क्षेत्रसामान्यभावदः तेभ्य पञ्चधनुष्केतु चतुर्थी संस्थिता मदा पूर्वभागे तदन्याश्च वृद्धिन्यूनत्वमानदः तद पंचधनुष्के दू, दूरे पूर्व दिशिस्थित नग्न भैरव नाना ना चा पंज तेज्य पंचधनुषेदिपा संस्थि मदा वृद्धिन्यूनत्वमानेन यथा क्षेत्रं प्रकीर्तितं पूर्वे शानदिशो मध्ये प्रजापति स्थितस्वयं नैहृदिपश्चिमाशागशेषस्तत्र महेश्वरः तेभ्यः पञ्चधनुष्केतु वज्रादीनि च क्षेत्रमानप्रमाणेन वृद्धिन्यूनेन निश्चितम् एवं सर्वं मया प्रोक्तं यथा शास्त्रं विधानतः गर्भागारस्य विस्तारमाहात्म्यं देवसत्तमाः अन्येनाना गणेशाना गणेशासंस्थिताः परे सेवार्थं गणनाथस्य गर्भागारे जगद्धिताः इदं शृणोति पठति यश्चित्रं भक्तिसंयुतः स सर्पपापहीनश्च भवेद्वै देवसत्तमाः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि महापुराणे षष्ठे खण्डे विकटचरिदे गर्भागारस्य प्रमाणवर्णनं नाम अष्टादशोऽध्यायः ॐ